गरुडपुराणम् आचारकाण्डम् अध्यायम् सेवन् रुद्र उवाच सूर्यादिपूजनम् ब्रूहि कृदम् स्वायम्भुवादिभिः प्रदं सारं व्यास सङ्क्षेपदः परम् हरिरुवाच सूर्यादिपूजाम् वक्ष्यामि धर्मकामादिकारिकाम् ॐ सूर्यासनाय नमः ॐ नमः सूर्यमूर्तये ॐ ह्रां ह्रीं सूर्याय नमः ॐ सोमाय नमः ॐ मङ्गलाय नमः ॐ बुधाय नमः ॐ बृहस्पतये नमः ॐ शुक्राय नमः ॐ शनैश्चराय नमः घवे नमः ॐ केदवे नमः ॐ तेजश्चण्डाय नमः आसनावाहनम् पाद्यमर्घ्यमाचमनम् तथा स्नानं वस्त्रोपवीतम् च गन्धपुष्पम् च दूपकम् दीपकम् च नमस्कारम् प्रदक्षिणविसर्जने सूर्यादीनाम् सदा कुर्यादितिमन्त्रायर्वृषध्वजात् ं ह्रां शिवाय नमः ॐ ख्रां शिवमूर्तये शिवाय नमः ॐ ख्रां हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ क्रों शिखायैवषड्रैकवचाय हुं ॐ ह्रां नेत्रत्रयाय वौषड्रः अस्त्वाय नमः ॐ ह्रां सद्योजादाय नमः ॐ ह्रीं वामदेवाय नमः ॐ ह्रूं अखोराय नमः ॐ ह्रैं तत्पुरुषाय नमः ॐ ह्रौं ईशानाय नमः ॐ गौर्यै नमः ॐ ह्रौं गुरुभ्यो नमः ॐ ह्रौं इन्द्राय नमः ्रौं चण्डाय नमः ॐ ह्रां अघोराय नमः ॐ वासुदेवास्तनाय नमः ॐ वासुदेवमूर्तये नमः ॐ अम् ॐ नमो भगवते वासुदेवाय नमः ॐ आं ॐ नमो भगवते सङ्घर्षणाय नमः म् अम् ॐ नमो भगवते प्रद्युम्नाय नमः ओम् अह ॐ ओम नमो भगवते अनिरुद्धाय नमः ॐ नारायणाय नमः ॐ तत्सध्यग्ने नमः ॐ भ्रां विष्णवे नमः ॐ क्षौं नमो भगवते नरसिंहाय नमः ॐ भूः ॐ नमो भगवदेवराहाय नमः ॐ कं तं पं शं वैनदेयाय नमः ॐ कं खं रं ओं जं कं रं सुदर्शयनाय नमः ॐ कं तं फं शं गदाय नमः ॐ वं लं मं षं पाञ्चजन्याय नमः ॐ कं तं फं हं श्रियै नमः ॐ गं डं वं सं पुष्यै नमः ॐ धं शं वं सं वा वनमालायै नमः ॐ सं दं लं श्री धं लं श्रीवत्साय नमः ॐ धं यं कौस्तुभाय नमः ॐ गुरुभ्यो नमः ॐ इन्द्रादिक्पालेभ्यो नमः ॐ विश्वक्सेनाय नमः आसनादिं हरेदैर् आसनादिं हरेरतैर्मन्द्रैर्मन्द्रैर्द्याद्वृषध्वजा विष्णुशक्त्या सरस्वत्या पूजां शृणुशुभप्रदाम् ॐ ह्रीं सरस्वत्यै नमः ॐ ह्रां हृदयाय नमः ॐ ह्रीं शिरसे नमः ॐ ह्रूं शिखायै नमः ॐ ह्रैं कवचाय नमः ॐ ह्रौ नेत्रत्रयाय नमः ॐ ह्रः अस्त्राय नमः श्रद्धारुद्धिकला मेधातुष्टिपुष्टिप्रभामदिः ॐ ह्रीङ्काराद्या नमोऽताश्च सरस्वत्याश्च चक्रयः क्षेत्रपालाय नमः ॐ गुरुभ्यो नमः ॐ परमगुरुभ्यो नमः पद्मस्थाया सरस्वत्या आसनाद्याम् प्रकल्पयेत् सूर्यादीनाम् श्वकैः प्रन्थै पवित्रारोहणं तथा श्री श्रीगरुडे महापुराणे आचारकाण्ठे सूर्यादीनां सरस्वत्याश्च पूजनम् नाम सप्तमोऽध्यायः ओम्